गणेशपुराणं क्रीडाखण्डम् अध्यायं 34 फोर् कीर्तिरुवाच ब्रूहि ब्रह्मणशेषेण संवादं नारदेन्द्रजं श्रुत्वा संशयं त्यक्त्वा तृप्तास्यामृतादिव क उवाच इति तस्या वक्तुं समुपचक्रमे समुनिरितिहासं तं संवादं नारदेन्द्रजं मुनिरुवाच कदाचित् पर्यटन् नारदो दिव्यदर्शनः यदृच्छया गधक्रं त्रिलोकी भ्रमणे चक्रस्तं परिपूज्यैव पप्रचौरवचेष्टितं यदाह नारदो धीमां तशृणुष्व महामुने नारद उवाच देशे मालव संजात औरवो नाम वैद्विदः वेदवेदाङ्गक्षात् भानुरस्थं विना यथा शक्तो ये मनसा स्रष्ठुं पादुं हर्तुं चराचरं धर्मपत्नीरदो नित्यं समलोष्ठाश्म काञ्चनः मेधावीतपसा श्रेष्ठो जादवेदा इवापरः सुमेधा नाम तस्यासित् पत्नी परमधार्मिका कांदा नाना लाण्यलहरी का नलंकारशोभनार्जितरर्धि कृता सरसोगणा प्रदेश्रूषण लालिदा तयो कन्या तय सवत्ता सुलालिदा नाच्र तोरभ समीकेदि निजेच्छया यद्यत् प्रार्थयदे सादं तद् ददाति पिता विभुः साधुकन्यारूपवदि संजा सप्तवार्षिकी तदर्थं चिन्तयामास वरार्थमौरवोगदः दौम्यपुत्रं सशुश्रावं वेदशास्त्राङ्गपारकं शौनकस्य मुने शिष्यं तेजोराशिं परं मुनिं गुरुवाक्यरथं दान्तं गुरुशुश्रूषकं परं मन्दारनामकं शान्तं समाहूय शुभे दिने तां ददौ गृह्यविधिना पारिबर्षं ददौ बहु वाहे विवाहे ययौ स्वस्याश्रमं प्रति प्रदी तु तां ज्ञात्वा शमीकां पुनराययौ मन्दारो मानितः सम्यग्गौरवेण सुपूजितः सम्भोज्य सुमुहूर्तेन दत्त्वा वस्त्रादिकाञ्चनम् प्रास्तावय प्रास्तापयदुभौ विप्रो जामातरमधाब्रवीद इयं सुदा मम ब्रह्मन् दत्ता तुभ्यं विधानतः पालयस्व बहुस्नेखा दद्यया वन्मया यथा प्रणिपत्यादश्वरम् ॐमित्युक्त्वा जगामसः स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया कदा चेत् प्रविमोख्योऽसौ भृशुण्डितस्य चाश्रमं मन्दारस्य समायादो द्विरदाननभक्रीमान् रुष्टोसावनलः साक्षात्तुष्टश्चेदीश्वरोपमः तपसा निर्गता भृशुण्डीतिजसो भवत स्थूलोदरो बृहत्कायो नानालङ्कारमण्डितः ददर्शदुरुभौतम् तौ मन्धारशमिका तदा विरूपमिव तम् दृष्ट्वा जहसतुर्मुदा तदा सोपमानभयात्रस्तच्छुकोपारुणलोचनः भा उवाच दम्मन्दमदेन मन्दमदेन जानासि मदोद्ध अहसि भ्रुभृतैर्दन्धैर् पत्न्याः सह यदस्तु माम् अदो यादम् वृक्षयोनौ सर्वप्राणिविवर्जितौ क शापं श्रुत्वादि कठिनम् सन्तप्तौ तौ बभूवधूः प्रणम्य प्रोचदु दुर्विप्रमुच्छापं वक्तुमर्हसि तद ऊजे भृशुण्डी स जानन् करुणयायुधः शुण्डां दृष्ट्वा कृतं हास्यं युवाभ्यां मूढभावदः शुण्डावान् देवदेवोऽसौ सुप्रसन्नो भवेद्यदा तदा युवां निजं रूपं प्राप्स्ये धे नात्र संशयः एवमुक्त्वा गदौ यावन्मुनिराश्रममण्डलं तावत्तौ वृक्षतां यादौ त्यक्त्वा देहौ तु मानुषौ मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणाद प्राप्ता सर्वतः कण्डकैर्वृदा उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाच्यदः अनागतौ तुदौ ज्ञात्वा शौनकचिन्तयान्वितः मासमात्रे गते नैव याति कस्मान् महाबलः मन्दाारो यामि तं द्रष्टुं शिष्या यान्तु मया सह शीघ्रमौरवमागम्यपप्रशनकैरिदम् अनेतुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद औरव उवाच मया प्रेषि कन्यां तु तत्समम् नाकतश्चेत्स्वाश्रमं स न जाने क्व चिन्तया मासुराधदे सुरथदे औरवः शौनकादयः किमु भौ मार्गे मृगव्याक्रतरक्षुभिः अथ वा निगतौ चोरैर्दष्टावाशी विषेण तदस्ते त्वरिदा जग्मुस्तदुदन्त बभुत्सया क्वचित् क्वचिज्जना ऊजो मासमात्रमिदो गदौ तदोरण्ये पदे दृष्टे स्त्री पुंसोत्सारुत्रापिणी अनुपेदे ज्ञात्वा भ्रुशुण्डिना शब्दावुपहासरुषावशाद वृक्षदां गमितौ सर्वपक्षिकेडविवर्जितौ मन्तारतां तु मन्तारः शमिका शमितामपि शौचादेताबुभौ विप्रौ औरवः शौनकोऽपि च धौम्यपुत्रः साधुरयमध्येदु समुपागतः अधीदवेद्य स कथं गमितो द्रुमदाम्बलाद पिता श्रुत्वा प्राणान् पृष्ठ वदामितं, वा वदामि तम् औरवोऽपि शुशोचयिनां शमिकां निजकन्यकाम् का न भक्तदेवयोहो भक्तदेवयोः गणेशं परिराध्यैव मोचयाव इमावकाद जितेन्द्रियावूर्ध्वृष्टि निराहारौ दृढव्रधौ ये गां कुष्ठस्थिदा उर्व्यां तोषयामास दुर्मुदा ततस्तौ कृपयाविष्ठौ ते परमं तपः षडक्षरेण मन्त्रेण देवदेवं विनायकं एवं द्वादशवर्षाणि च रथोस्तप तप उत्तमं कन्यकार्थं च शिष्यार्थं शौनकोऽपि च इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिदे चतुस्त्रिंशोध्याय ओ